पञ्चमकाण्डे षष्ठः प्रश्नः प्रारब्धः हिरण्यवर्णा श्रेः पासकायासु जातः कस्य भोयास्विन्द्रः अग्नीयागर्भन्धरे विरूपास्तान आवश्यकस्यो या सा गो राजा वरुणा याति मध्ये सत्यानृते अपवश्यञ्जनानाम् मदश्चुदश्रुचयाः पाकास्तानः अवश्यकस्यानाभवन्तो देहादिविकृह्णन्ति भक्ष्य अन्तरिक्षे बहुधा भवन्ति या पृथिवीम् वयसवन्दन्ति शुक्रास्तानः अवश्यज्ञस्य नाभवन्तो शिवेन मा चक्षुषा पश्यतापः शिवया धनुवापः स्पृशतद्वशम्मे सर्वागो अग्ने गोरप्सृषो भवे वो मोपरमो जानिधत्ता रहा वनदताहते रहावनदताहते तस्मादा नद्यो नामस्तता वो नामानिसिन्धवः यत्प्रेषिता वरुणे नता श्रीभगो समवैध्यतान्द्रा वयतेस्तस्मादा वो हलस्त स्यन्दमाना अवीवरतवोहिस्तस्मात् पार्नामवोहितम् एको देवोऽप्यधिष्ठस्यन्दमाना यथावशम् तानि शर्म हीरिति तस्मादकमुच्यते आपो भद्राभृतमिताप आसी सोमो विप्रत्यापयिता आदिपश्याम्युतवाशिणाम्यामाघोषो गच्छति वासा मन्ये पेजानो अमृतस्य तर्हि हिरण्यवर्णादृपञ्जावः आपोभिष्ठाम योगुवस्तानभूत्ये तथा महेरणाय चक्षसे यो वः शिवतमोरसस्तस्य भाजे देहनः वषदीरिव मातरः तस्मारङ्गमामवो यस्य क्षयायज आपो दिविश्रेयस्वान्तरिक्षे यतस्व पृथिव्यासम्भव ब्रह्मवत्य समधिब्रह्मवत्य सायत्वा चेतराजसूयंश्च वावेव लोका भवि राजसूयेन जानस्य यश्च निजथापो भवन्त्यापो वाग्ने भ्रातृं यायधो रथस्यातृं या विभो चे भवत्यात्मनापरा सर्वमाय हृदयस्यैता उपधीयन्ते योजैना एवं वेदान्नं वा आवश आवान् सैता उपधीयन्ते योजैना एवं वेद द्वादश भवन्ति द्वादश माता संवत्सरसंवत्सरेणैव पात्राणि भवन्ति पात्रे वा पुरुषादना पात्रान्न शक्यते यस्य एता उपधीयन्ते युजैना एवं वेदकुम्भाश्चेश्च मिथनानि भवन्ति मिथुनस्य प्रजा पशुधर्मधनैर्जायते यस्य एता उपधीयन्ते युजैना एवं वेदशुक्वाक्यं यजमानं प्रजार्पयति सुचमेवास्य र्यन्न यजमानश्याम्यन्द्रि प्रजायत्रैता उपधीयन् देवां वा एतानि हृदया नियदे आधाति दिव्याभिरेवैना भवति यो वह एतासामायतनं क्लप्तिं वेदायत नवान् भवति कल्पते स्मानुसेतमुपदधाच्चेतयतनमेषा कृत्यर्य एवं वेदायत नवान् भवति कल्पते स्मै द्वन्द्वन्य उपदधाति च मध्ये साक्षादेवास्मान्नम वृन्दे मध्यत उपदधाति मध्यदेवस्माहन्यस्मान्मध्यतो नेवा ब्रह्म वै देवानां बृहस्पद ब्रह्मणैवास्मान् नमवृन्दे ब्रह्म वर्तते ब्रह्म वर्तदा येत्याहतेजस्वै ब्रह्म वर्चदे देश उपधिय देव जैनमेवं वेद ष्ठगा उपदधात्यत्र वैमुच्चर्जायते यत्र यत्रैवमुच्चर्जायते तत्र देवै नेद सर्वे मृत्योग्निजन्नाभिचरित वै प्रत्यगेन शृणते सूयदेवायशयोञ्जिनदे सुभामेतानि हवितावन्तो वै देवानागो सवास्त एवास्मै सवान् वृच्छन्तु राजसोऽयं ब्रह्मसवश्चप्रसोद एवैनं ब्रह्मणा देवताभिरभिषिञ्चत्यन्नस्यान्नस्याभिषिञ्चत्यन्नस्यान्नस्यावर्ध्यै पुरस्तात् प्रत्यञ्चमभिषिञ्चलि पुरस्ताभ्यप्रदेशे एवास्मान्नात्यन्त साम्राज्य नाभिषिञ्जामेत्या हैशवाज्ञेन अभिषिञ्जति बृहस्पदे स्वासाम्राज्य नाभिषिञ्जामेत्य ब्रह्म वै देवानां बृहस्पद ब्रह्मणैवेन अभिषिञ्चतेन्द्रस्य स्वासाम्राज्य नामेत्येन्द्रियमेवास्मिन्नपरिष्टाद्वैराजसो यस्य रूपं च एवं विद्वानग् ैश्चाग्निजित इन्द्रस्य दशवानस्य दशतेन्द्रियम् वीर्यम् पराभृतदेवासोत्रामण्या समभरन् सूयदेवाय श्रियोञ्जित्वा सोऽत्रामण्याय जयतेन्द्रियमेव वीर्यो सम्भृत्यात्मन्धत्ते सजो रत्तायावभिः सजोषा अरुणेभिः सजो सूर्य एतशेन सजोषा अश्विनाथगो साभिः सजो रश्वा नर इडाभिः कृते र स्वाहा संवत्सरो वातो मासा अयावा वृषा अरुण्य सूर्य एतश इमे अश्विनासंवत्सराग्निर्वैश्वा नरः पशव इडा पशव कृतगो संवत्सरं पशव न प्रजायन्ते संवत्सरे नैवा दर्पस्तम्भे जुहायत्वास्यामृदीर्यन्तर्पास्तस्मिन् जुहाधि प्रैव जायते भवति जेता दे वै देवताग्नस्था एव प्रीणाच्यक्षदेवारस्तात्कृतिदधाच्यनन्दो भवति एवं वेदा भो वा इदमप्रजापदपुष्करपन्ने वातो लेलाय स्वप्रतिष्ठान्नाविन्द तदपां परायमपश्य तस्मिन् तदो वेदप्रत्यक्षत्यां पुरस्तादपदधात्क्षभवत् सा प्राचिज्ञान् दक्षिणधा उपादधात् स दक्षिणपक्ष भवत् स दक्षिणादिज्ञां धात् तृच्छमभवत् सा प्रदेचिरिज्ञामुत्तरता उपादधात् स उत्तरपक्ष र्वायं वयोर्कन्नाज्ञादय एवं विद्वानग्नि प्रत्यवतिष्ठत्यभिदुषादेत्याग्नेयास्माद् ब्राह्मणाय रिक्ष्वच्च स्वामेव दद्विष्यमन्वेत्य बाह्याकुलाय तस्मादावोऽ स्वामेव तद्यानम् प्रविशन्ति संवत्सरमुख्यम् भृत्वा त्रीये संवत्सरा हेयमष्टाकपालन् दयेन्द्रमेकादश कपालं वैश्वदेवं द्वादश कपालम् बालः पत्यम् वैष्णवन्त्रिकपालम् संवत्सरे भवत्यष्टाक्षरा गायत्र्याः येयम् गायत्रम् राजस्य वनम् राजस्य वनमेव देनदाधार गायत्रीन्द्रन्दो यदेक लो भवत्येकादशाक्षरा तिष्ठेन्द्रन्द्रेष्टब्रह्मात्यञ्जनकोसव सवनन्देन द्वादश कपालो भवदत्वादशाक्षरा जगदेवैश्वदेवं जागदं तृतीयसवनन्दृधीयसवनमेव जगदीस्पत्यश्च ब्रह्म वै देवाना बृहस्पदब्रह्मैव ृकपालो भवति यज्ञो वै विष्णुर् यज्ञमेव तेन राजारय तृतीये संवत्सरेयस्संवत्सर मुख्यं वेन लोकग्रस्पृणाति द्वितीये संवत्सरेन्दमेव तेन स्पृणाति यत् तृतीये संवत्सरे यज प्रेममेव तेन लोकग्रस्पृणात्येदं वै पराः कक्षीवागमव्यामेदह स्य पौरवस्य प्रजाकामा अजन्वदतो वैते सहस्रगोसहस्रम् पुत्रा न प्रथते तप्रसदे प्रजया पशुभ्यस्थाम् मात्रामाप्नोदियाम् दे गच्छम् विद्वानेतमग् जापतिरग्निमजनुदसक्षुरभवद्भोत्पादिश्च देवाभिभ्यतानोपायन्ते छन्दोभिरात्मानम् चाधयित्वापायन्तच्छन्दस्त्वं ब्रह्म वै ृन्दं जनवाकृति प्रजानात्मकामाक्रात्मानमेवाधिपान्वाक्रम्येरत्यस्मान्नाक्रम्या पुरुषीपर्यास यथा भूयादे रम्ये गोपायेति सादृगेव तत्प्रजापधर्वा सर्वात्मिरेव सद्यङ्गाधर्वरस्तस्येष्टका अस्मा हवादृशरञ्जनो वाजेन्द्रदधि चेदयुष्टकात्मानमेवाक्लिञ्चिन देशात्मां लोके भवति एवं वेद श्रीरम्भा एतदत्नेर्यित्य आत्मा वैश्वानुरोयच्छिदेवै श्वानुरञ्जति शरीरमेव शक्यस्कृत्यात्म्यारोहति श्रीरम्भा एतद्यजमानश्चिञ्चि नेच्छि देवैश्वानरञ्जहातिशरीरमेव सकृस्कृत्यात्मनाभ्यारोहति तस्मात्तस्य नावज्जन्ति जीवन्नेव देवानप्येन वैश्वानर्यच्चापुरेशमुपदधा दीयम् वाऽत्म्यर्वै विश्वानरस्तस्यैषा शर्यत्पुरेशमग्निरे वै विश्वानरञ्जनत एषा वात्म्ये प्रियातनुश्वानरप्रियामेवास्य तनुवमवरुन्धे ैर्वै दीक्षया देवा विराजमाप्नवन्ति स्रौरात्रेक्षदस्यादा विराट् विराजमात्मा षट्वात्रेक्षदस्यात्सरो विराट् विराजमात्मा दश रात्रेक्षदस्याक्ष विराट् विराजमाप्त्वादश रात्रेक्षदस्यादशमासम्वत्सरस्संवत्सरो विराट् विराजमाप् प्नोति त्रयोदश रात्रेक्षदस्या त्रयोदशमासा संवत्सर संवत्सरो विराट् विराजमाप्नोति पञ्चदश रात्रेक्षदस्यात् मासा विराट् विराजमाप्नोति त्रिगुंशदकं रात्रेक्षदस्या त्रिपुंशदक्षरा विराट् विराजमाप्नोति मासीक्षदस्यात्य संवत्सरस्संवत्सरो विराट् विराजमाप्नोति चतुर मासा चतुर वा एतं मासोस्ते पृथिवेयत्रीं छन्दोष्टोत्रा ृष्टभञ्जन्धश्च वेदव्यावृतमगच्छन् श्रेष्ठन् देवानान् स्वर्गाय वा एषु लोकाय जीयते स्वर्गाल्लोकात् त्यजमानो हे पृथिवीमाक्रमिषु राणान्तरिक्षमाक्रमिषुं व्रजामाक्रमिषन्मेहस्ते नैवेन्मारोहति स्वर्गस्य लोकस्य तमश्चेय पक्षसंविस्यात्मन जा स्याद्वेदसंविधा विद्यायागुमेव यज्ञकृतमैदिञ्जन् वेद प्रथमञ्जिन्मानसहस्रसंवितो वा अयं लोक इममेव लोकमभिजेत ऋषाहस्रञ्जन्वेद द्वितीयं जिन्माना द्विसहस्रं वा अन्तरिक्षमन्तरिक्षमेवाभिजेत त्रिसहस्रञ्जन्वेद तृतीयञ्जिन्मानस्त्रिसहस्रो वा अतो लोकोपमेव लोकमभिजेत् जानञ्जन्वेद प्रथमञ्जन्माना य त्री मल्लाकमभ्यारोह जनाभिद द्वितीयञ्जिन्मानश्रिष्टभैवान्धमभ्यारोह चिक्रीष्णञ्जिन्वेद तृतीयञ्जिन्मानो जगत्रिवामल्भागमभ्यारोह जनाग्नित्वा रामामु यादयनो रेतोधास्यामि जिन द्वितीयं जित्वान्यस्य श्रियमु या नृतीयं जित्वागाजनोपे यात्रेतन्ध्येदग्नैभे यात्रेदा प्रजस्यन्दत्यन्न वेयादिति यत्रे तस्य च उपदधाति ते एव मास्तस्मादुपेया त्रेदन्धा यत्रिणिवावरे दापिता पुत्रः पौत्र यद्वै रेदस्य च उपद्यामित्यस्य उपददातरेन्दत्या इं वावप्रथमा रेदस्य पश्यन्ति इमां पश्यन्ति वा जं वदन्तिमन्तरिक्षन् रिक्षन्तरिक्षं चुर्वासौ प्राणानामिष्टो यज्ञस्य वेदस्य द्रविणेह भक्षीयेष्वाच्छ विश्वर्णेताने शप्रहस्पदमदाने शकंसि हैतत्वाग्ने रुक्थम् देनैवे न मनु शकंसति ेन करोति गर्भो वा एषयो निश्चिक्यञ्शिक्याहन्यामगो शिक्यं भवति शोडा विहितो वै पुरुषः आत्मा दुशुरस्त चत्वार्यङ्गा ्यात्मन्नेवैलम् विभक्ति प्रजापतिर्वा एषेस्तस्य लोका चोलोकलं च नोदापस्य प्रजा उपदे गन्दिकलं चोपदधामस्मिन्लोके इन्दुहे संवत्सरो वा एषे रस्तस्य त्रेधा विहिता इष्टका प्राजापत्यावेर्वैश्वकर्मणिरहो रात्रा एव तदपरः तेजत्समिध आदधा वैष्णवा वै वनस्मनया वैष्णवेरेव तलपरः तेजष्टगाभिरग्नियम् वै विश्वकर्मा वैश्वकर्मणीरेव दलपरस्मादास्त्रिवञ्जतम् वा एतञ्जमान एव जन्मे तैरस्यान्यश्च निजात्य तन् दक्षिणाभिर्नराधय लज्ञमस्य मञ्जीर्यम् च निजात्तम् दक्षिणाभिराधय लज्ञमेव तत्स्मनादि प्रजापतिरग्निमजसंरं पक्षमाशुयामध्य एवं विद्वानभिरेवैनं चिलेथ एतदेव सर्वमवरुन्धे शृण्ं जिज्ञानमत्यं नगौराचलयम् क्षत्राणि दक्षिणा यत्रिजिते दक्षिणामात्मानं प्रजामन्तर्यात्तस्मात् पञ्चजिदेकश्चव्य एतदेव सर्वज्ञस्माद्यश्चितयस्त्रिवर्जज्ञान् दिवाङ्कः पुरुष आत्म मानमेव स्पृणाति पञ्चदयो भवन्ति पञ्चमपुरेषेण पुरुषो याज्ये वातिष्ठति संवत्सरो वैषष्टे चित् षट्चतयो भवन्ति षट्पुरेषा द्वादश सम्पद्यन्ते द्वादश मासाः संवत्सरः संवत्सर एव प्रतिष्ठति धोम्ररहिरोहितस्ते प्राजापत्या भ्रशकभ्रस्ते रौद्राक्षस्येस्ते पुरुदेवत्या कृष्णास्ति सेता कृष्ण्येन मारुतार्णेव लक्षयिता सारस्वत्यपृषदे स्थोलपृषदे क्षत्रपृषदे तावदेव्यश्च्यश्चहिणीर्वशा मैत्रिय ऐन्द्रावारहस्पत्या अरुणललामास्तोपराः हुरन्यद श्रीनिवाहस्व मन्द श्रीरिवाहस्थ मयेन्द्रवाय वा श्रीरन्ध्रोऽदः श्रीरन्ध्र स्वमं दश्रीतरन्ध्रस्य मयित्रावरुणा शुद्धवाल सर्वशुद्धवाल मणिवालस्तः शिल्पावशा षभो वामनस्तये इन्द्रावर्णाश्रिकक्षि पृष्ठस्य दिभस्तये इन्द्राशिकाश्विष्ठस्य दिभस्तये इन्द्रा वैष्णवास्तिस्रस्यैश्व ब्रह्मण्यस्तिस्र धात्रे पृषोरायै इन्द्राभोष्णाश्च श्रयो यामासौम्याश्रेयस्मिलिङ्गाग्नयेष्टाय त्रयोस्त्रिस्वरोहिणेश्वस्तावसूनां ऋत्राणागोदो महीन्द्राव्रणामास्तोभा शुण्ठाश्रय वैष्णव अधीरा जगन्नाश्रय विष्णव गुरुक्रमाय स्वजास्त्रय विष्णवगुरुगायाय पञ्जामेरामेन्द्रा वैष्णव गौरलामास्तुभरा इन्द्राया ज्ञेत्रे श्रीकृष्णा इन्द्रायाधिराजा यत्रे श्री गगुर इन्द्रायश्व ज्ञेत्रे श्री गगुरयोज्यानाम् तिस्रपृष्ठविश्वेयान् देवानामाज्ञेन्द्रा कृष्णनामास्तु भरा अदित्ये त्र्यरोहितयिता इन्द्रान्येत्र्यकृष्णैता सुमेत्र्यो रणयिता कृष्णोदयनवो रागायै त्रियो नत्वा हस्मि बाल्यात्मा वैष्ण्यारोहितलामास्तोपना सौम्याङ्गा सोमाय राज्ञा त्रयस्तारङ्गापाद्यज्ञानभौरो बास्वजा इन्द्राण्ये वरुणाश्रयः कृष्णयलामावरुणाय ज्ञे त्र्योरोहितलामावरुणाय शात्रेत्रयोरुणलामा शिल्पाश्रियौ वैश्वदेवाश्रयः कृष्णयः सर्वदेवत्या ऐन्द्राशोराश्रयतललामासः इन्द्राग्निभ्या <Sess> मो जोदामिष्टादामिन्द्राग्निभ्या धेनो भूमि दिव्य वणवे त्वे धेनो भूमि वै राजीपुरुषे त्वे धेनो भूमि वायव आरोहण वाहवो वारुणे कृष्णे वशे राज्ञो दिव्योपरिमरोः एकादश प्रादर्गव्या वशवरालभ्यन्ते चकलः कर्माशक्ति देवैर्विदेकयस्तेर्नव श्वेतावशालो वन्द्या भवन्त्यालयोपालभ्यन्ते शङ्गास्त्रया वासन्दास्रारङ्गाश्रया ग्रीष्मा प्रशन्तास्त्रया वार्षिका प्रश्नेयशारदाश्रय हैमन्दिका अवृत्ताश्रयश्रेशिरा संवत्सराय निवक्षतः इति पञ्चमकाण्डे षष्ठः पश्च